श्रीमद्भागवत् महापुराणं दसंस्कन्ध अत्रिंशोऽध्यायः श्रीकृष्णके विरहमे गोप्ययो की दशा श्रीशोकुवाच अन्तर्हिते भगवति सहसैव वजाङ्गनाः अत्यन्तप्यन्तमचक्षाणाः करिण्य इव यूथपं गत्यानुरागस्मितविभ्रमैक्षितै मनोरमालापविहारविभ्रमै आक्षिप्तचित्ता प्रमदारमापते सास्ता विचेष्टां जिगृहूस्तदात्मिकाः गतस्मितप्रेक्षणभाषणादिषु प्रिया प्रियस्य प्रतिरूढमरुतयः असावहं ते च बलास्तदात्मिका न वेदिषु कृष्णविहारविभ्रमाः गायन्त उच्चैरमेव संहता विचिज्ञिरुन्नन्तकवन्वनाद्मनम् प्रपक्षुराकाशवदन्तरं बहिर्भूतेषु सन्तं पुरुषं वनस्पतिं दिष्टो वा कश्चिद्दस्वस्थप्लक्षण्यग्रोधनो मनः नन्दसो निर्गतो हृत्वा प्रेमहासावलोकनैः कश्चित् कुरं बकाशोकनागपुन्नागचम्पकाः द्रामाणजो मालिनीनामितो दर्पहरस्मितः कश्चित् तुलसी कल्याणी गोविंद गोविन्दचरणं प्रिये सत्वारि कुलैर्विभ्रन्दृष्टस्तेति प्रियोच्युतः माल्यत्यदर्शिवः कलचिन् मल्लिके जातियूथिके प्रीतिं भोजनीयञ्जातकरस्परशेन माधवः च्यूतप्रियालपनसाशनकोविदारजम्बरकविल्वकुलाम्रगदम्बनीः जैन्ये परार्थ भवकायमनोपकूला संसन्तु कृष्णपद्मीं रहितात्मनाम्ना किं किम्ते कृतं चितितपो बतके समाङ्घ्रि स्परशोऽशभोत्पुल्पुलिकृताङ्गरुहैर्विभाषी अप्यङ्घ्रिसम्भव उरुक्रमविक्रमाद्वा आहो वरा वपुष परिरम्भणेन अप्येन पत्न्योपगतप्रियये हगात्रये तन्वन्द्यसां तकृसुनिर्मितिमच्युतो वा कान्ताङ्गसङ्गकुचकुङ्कमरञ्जिताय कुलपते रिहवाति गन्धा दाहुं प्रियां सुपधाय गृहीतपद्मो रामानुजस्तुलिन्सि कालिकुलैर्मदान्धैर्दन्वीयमान इहवस्तर्वप्रणामं किं वाभिनन्दति चरन् प्रणयावलोकै पृच्छत्ते मा लता बाहुनप्याश्लिष्टा वनस्पते नूनं तत्करजस्पृष्टा बिभ्रत्यूत्पुलकान्यहो यद्युन्मत्तवतो वचो गोप्यकृष्णान्वेषणकातराः लीलाभागवतस्तास्ताशनुचक्रो सदात्मिकाः कस्याश्चिदं पूतनान्य्याः कृष्णायन्त्य पिबन् पिबतन्तनम् तोकायित्वा रुदन्त्यन्या पदाहच्छकटायतिं दैत्यायित्वा जहाराण्याम् एका कृष्णार्भभावनां ऋङ्ग्यान्माशकाप्यङ्घ्रीकर्षन्ति घोषणीश्वरैः कृष्णरामायि ते द्वे तु गोपयन्त्यश्च काश्चन वत्सायतिं हन्ति आहूय दुर्गा यद्वत् कृष्णन्तमनुकुर्वतीं वेणुं कुणन्तीं क्रीडन्तीम् अन्या शंसन्ति साध्विति कस्यास्ति स्वभुजं नस्य चलत्याः परा ननु कृष्णोऽहं पश्यत् गतिं ललितामिति तन्मनाः मा भेष्टवातवर्षाभ्यां तत्रालम् विहितं इत्युक्तैकेन हस्तेन यतन्त्यो निदधेऽम्बरम् आरुह्यैकापदाक्रम्य शिरस्याः परां नृप दुष्टा हे गच्छ जातोऽहं खलानां ननु दण्डीं तत्रैकोवाच हे गोपादावाग्निं चक्षुं स्यास्वपि दध्वं वो विधास्ये क्षेममन्यसाम्